अथ श्रीगणेशस्तुतिः शुक्ष्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्याये सर्वविघ्नोपशान्तये वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभा निर्विघ्नम् कुरु मे देव सर्वकाल्येषु सर्वदा लाननम् भूतगणाभिसेवितम् अविच्छजम्बोफलसारभक्षितम् उमासुतम् शोकविनाशकारणम् नमामि विहेश्वरपादपङ्कजम् वाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र वामनरूपमहेश्वर पुत्र विघ्नविनायकपादनमस्ते अगजानन पद्माकम् अनेकदन्तम् भक्ताना एकदन्तम् वा स्महे सुमुखश्चैकदन्तश्च क्रविरोगजकर्णकः लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ्रकेतुर्गणाध्यक्षः बालचन्द्रोगजाननः वक्रतुण्डशोऽर्पकर्ण हे रम्भस्कन्दपूर्वजः शिवदनयवरिष्ठम् सर्वकल्याणमूर्तिम् परशुकमलहस्तम् शोभितं मोदकेन अरुणकुसुममाला व्यालनम्बोदरन्तम् मम हृदय निवासम् श्रीरमेशम् नमामि